अध्यायम 47 व्यास अटी नाम नाम सहस्रे संप्राप्ते प्रसन्ने गजानने तद किमक्रमस्त स्वे ब्रह्म उच गणेश नाम्नां चैवोपदेशतः प्रहष्ठः शङ्करो नृत्यं जगर्ज च महास्वनः आहूयस्व गणान् देवान् युद्धावसरमादिशत ते जहर्षेण महदा युयोदेवाशिवान्तिकम् ब्रह्मा कुबेरोधपुरन्धरोऽग्निर्वायुश्च सोमो वरुणोर्यमा च गन्धर्वयक्षाग्रहकिन्नराश्च सर्वे नमस्कृत्य शिवं स्तुवन्तः देवा ऊचुः महादेवजगन्नाथजगदानन्ददायक त्वया कथं महादैत्यं कदा द्रक्ष्यामहे वयं स्थानं तेन कृता विश्वविखादिना ब्रह्मोवाच एवं देववच श्रुत्वा पिनाकी निर्ययौ मुदा गणेशं गणेश युद्धाय कृतनश्चय वेगेन भवनं प्राप्य देंगन्धर्वसंयु तब्च दैत्यम चार सन्न आगत सुरसैन युद्धाय गिरीजापति वीरायास भूषणयुर्धनैः अनेकयानसंस्थेषु योद्धृषु त्रिपुरं स्वयम् आरुरोहमहादैत्यो नादयान्विदिशो दिशः ततो युद्धं समभवत् सेनयोरुभयोर्महत शस्त्रनाधर्बाणेदिरायश असृंग नदी प्रवाहो भूर्मागरोधन कारक शा बहुधा पुष्पीध किंशुका इव के दृढ़वरेण जीवग्राह मरय केचित् कचेषु धृत्वैव शिरांसिचिच्चिदुर्बलाद धावतां रथिवीराणामश्वानां करिणामपि अङ्घ्रिपादभवोरेणु व्यनिशे रोदसीक्षणाद अंधकारे खोरतरे न प्राज्ञा यदकिञ्चन चक्रुरेवं तदा युद्धं वीरा नानाविधा भृशं जीवितांशां परित्यज्य मर्तव्ये कृतनिश्चयाः अदृश्यन्तमृता देवा गदे रजसि वायुना विद्रुदे सुरसैन्ये च हर्षिते आययौ समरश्लाकी वज्रहस्तः पुरन्दरः शतकोटीं निरीक्ष्यैव दुद्रुवुर्दैत्यदानवाः स वज्रपादैरसुरांश्चूर्णयामास वज्रभृद तत्यजुर्जीवितं ते दुचण्डवज्रप्रहारदः केचिच्च भग्नचरणा केचिद्भग्न शिरोद्धराः केजिद्विदीर्णजढराश्चिन्नस्कन्दभुजाः परे छिन्नाश्वानां च वीराणां वाजिनां रथिनां तथा केषाञ्चिदुःखो भिन्ना जङ्घास्तु जहताः परे छिन्नगुल्फाः परे पे मिषात्पेदुरथापदे निखतानां मासृत्पादैर्जज्ञिरेन्निम्नगाबहु उत्साहवर्धनास्तेषां वीराणां जयकाङ्क्षीणां तदशनैर्गर्जमानो ददर्शत्रिपुरासुरः निखदं बहुधा सैन्यं शक्रं योद्धुमधाययौ बभ्राणचक्रं दृष्ट्वैव किमर्थं मर्तुमिच्छसि अपैहि युद्धाज्जीवंस्त्वं न पुष्टं हन्मिवासव कादेशक्तिर्मया युद्धं कर्तुं तव शचीपते अजसिंहेन युद्धं करिष्यदि वदस्व मे ये हि युद्धस्वशक्तिश्चेन्नो चेद्गच्छ यथा सुखं एवमुक्तेऽिदेशक्रे ववृषे सायकान् बहून् सज्यं कृत्वा धनुर्दैत्यो देवसेना देवसेनामताटयत ये येकस्मान्मन्त्रिताद्बाणादसङ्ख्यादा ययुशराः ये मृद्गन्धो देवगन्धर्वान् रोदसी समपूरयन् अन्धकारं पुनरभूत बाणजालायर्निरन्तरं तद्बाणैरपि ते देवा, देवा व्यङ्काः पेदुर्धरातले बलहान्यपदद्भूमौ पीडितः सर्वेषु देववर्येषु मूर्च्छितेषु महेश्वरः श्लाकन्दं बहुगर्जन्तं युध्यन्तं नाभ्यरोचयत मनसा पूजयच्छम्भुस्तस्य दैत्यस्य पौरुषम् यदस्मिन्नन्तरे तत्र नारदो दृष्टुमाययौ पूजितः प्रावदच्छम्भुं शृणुष्व नीलोकित नारद उवाच त्वया चिन्तानकर्तव्या त्रिपुरस्य वधं प्रति वक्ष्ये तस्य वधोपायं तं कुरुष्व महेश्वर तेन पूर्वं तपोकारि दुष्करं ब्रह्मणोऽपि आराधितो गणपतिस्स तस्मै सर्ववाञ्छितं यद्यत्तेन वृद्धं देवो दत्तवानविचारितं पुरत्रयं कामगममेकबाणाश्रितं महद विहीनं तदभेद्यं सर्वनुर्जरैः स एव मुक्तवान् गुह्यं शरेणकेन यस्तव पुरत्रयं भेत्स्यदे तस्मान मृत्युमवाप्स्यसि यवमुक्त्वा गदेतस्मिन्नारदे मुनिसत्तमे मूर्च्छिधान् विबुधान् शर्वसावधानमधाकरोध सस्मारेभमुखं वाक्यं स्मारितो नारदेन तु महाप्रयत्नमारेभे तेजसा सर्वनाशाय देवो निजेच्छया रथं कुरूपं शशिसूर्यचक्रं यन्तारमिन्दीवरजं चकार धनुर्गिरीन्द्रं शरमच्युदं स धुर्याश्विनो यावयुजद्गिरीशः आचम्यदेवं मनसा विचिन्त्य तेनोपदिष्टं च जजाबनाम्नां सहस्रमेगाक्षर मन्त्रयुक्तममन्त्रयत्तेन पिनागभुग्रम् अमन्त्रयन्महाबाणं विष्णुरूपं यदाशिवः शिवः शकम्बेधारणीशेषो वनानि गिरयोऽपि च बभ्रमुखगणा सर्वे चूकूजुश्च महारवान् शब्देन जगवस्याभिभ्रान्ता सुरमानुषाः अमुञ्जत्तं यदा बाणं तदा दग्धं नभस्तलं भूमण्डलं सपातालं ज्वाला मालाभिरञ्जसा दृष्ट्वापपालदैत्येन्द्रः ससैन्यः पुरसंश्रयः जीवेनागाचरसोप्यदह दैत्यं पुरत्रयं दैत्यदेहगतं तेजो भर्गं देहे लयं ययौ पश्यतां सर्वसैन्यानां दैत्यदानवरक्षसां ततोऽन्तरिक्षे वागासीन्मुक्तो दैत्यशिवादः तदस्ते तुष्टुवुर्देव मुनयोऽपि त्रिलोचनं जगुर्गन्धर्वनिचय्याश्चरणाश्रुधितत्पराः ननृतुश्चाप्सरः शङ्का किन्नरा वाद्यवादकाः मुमुच्छुः पुष्पवर्षाणि नारदाद्यासुरर्षयः ययुशिवाचनयादेवा स्वं स्वं स्थानं निराधयः नमस्कृत्यमघेशानं त्रिपुरासुरखादिनं मुनयोऽपि निरुद्वेगास्वस्वानुष्ठानतत्पराः आसं तस्मिन्हृदे दैत्यवेदवेदाङ्गशालिनः अग्निहोत्राणि यज्ञांश्च दानानि च व्रतानि च चकृत्सर्वजनाभूमौ पुनरुत्साहसंयुधाः शैलादिगणपस्कन्ध्रैसर्वैः पारिषदैरपि कृतावनामस्त्रयक्ष्योऽपि विभज्य तं महारथम् जय शब्दैस्तूर्यशब्दैर्देवदुन्दुभिनिःस्वनैः शाप्दाई, अलङ्कृतं शैलराजं कैलासं मुदितो ययौ त्रिपुरारिरिति स्पष्ट तदो नामास्यपप्रदे एवं महागणपतेर्मन्त्रसामर्थ्य मिदमीरिदम् सहस्रनाम्नामपि च प्रभावोऽयं निरूपितः न विज्ञातो मधन्येन कस्यापि न निवेदितः पठनाश्रवणादस्य सर्वकामफलं लभेत इति श्रीगणेशपुराणे उपासनाखण्डे शिवविजयो नाम सप्तचत्वारिंशत्तमोऽध्यायः ओम्